मे अग्ने सविधम् जुढस्वेडस्वते प्रति हर्या धृताी वष्मम् पृथिव्यासु विजते अन्ना मूर्ध्वो भव सुजो देवयज्ञा आदेवानामग्रजा न दासंसो विश्वरूपे विरश्वैः पथा न मियेधो देवेभ्यो देवनाम सुषोदरे दे सरस्वत्तममे दे दूत्या यम् मनुष्या सो अग्निम् अकृक्षैरस्मै सुगृतारथेन देवान्वक्षिलिष दे देवहोता विप्रसदाम् देवज्युष्टम् दिनश्चा दीर्घम् राध्वासोरभिभो त्वस्मे अहे लतामनादा देववरेन्द्रज्येष्ठाम् बुसदो जक्षिदेवान् दिवो वासानुस्पृशता वरीय पृथिव्या वामात्र याविश्रजध्वम् वसतीर्द्वारो महिला रयध्वम् देवी दिवो दुहितरासु शिल्पे वृषा सानका स ददान्योनौ आवाम् देवास वुसति बुसन्दा पुरौसी उपस्थे ओर्भो ग्रामा बृहदग्निः समिद्ध पुरोहीता मृत्विजा यज्ञे अस्मिन् विदुष्टा रात्रमि न माजेधाम् तिस्रो देवेर्भरीरितम् वरीयासीदचकृ सोणम् मनुष्यद्यज्ञम् सुधीता हवीम् शीला देवी घृतपाधीजुषन्ता देवस्त्वक्षरिगद्धुत्वमानज्यदङ्गीरसामभावः स चाभूः स देवानाम् पाथगुपप्रविद्वान् सम्यक्षिद्वनोदः सुरत्नाः वनस्पतेरधनया नियूया देवानाम् पाथगुपापक्षि विद्वान् सुदातिदेव कृणपध्यवींशधाम् द्यावापृथिवी हवम् मे आग्ने हवरो न मिष्टले न लिङ्गम् दिवो मरुतो अन्तरिक्षात् श्रीयन्द्बर्हिर्विश्वाय तत्रा स्वाहा देवामृता मादयन्ताम् बृहस्पते प्रथमम् वाचो अग्रम् यत् प्रैरादनामधे रङ्गधानाः श्रेष्ठम् यथा प्रमासीत् प्रेणादेषाम्भिः सक्तो निपतिता पुनः पुनन्तु यत्र धी रामन सा वा समग्रात अत्रासखा यः सख्यानि जानने भद्रैराम् लक्ष्मीर्विहिताधिभासि यज्ञेन वाचः पादवीया मायन्दामन्वविन्दन्विशेषप्रविष्ठामृत्या पुरत्राताम् सप्तवेभाभिसन्नावन्दे उत त्वः पश्यन्नतत्वशृण्वन्न श्रेणोत्येनाम् उद त्वस्मे तन्वा अम्बिश्लेशादेवमत्यमुशती सुवासा उत त्वम् सङ्ख्ये स्थिरपितमाभर्णैनम् अधेन्वाचरति माजयैषवाचम् सुश्रुवाङ्गलमपुष्पाम् यस्ति त्या स चिविधम् सखायम् न तस्य भाच्यपि भागो अस्ति यदीम् शृणोत्यलाकम् शृणोति न हि प्रभेद सकृतश्च पन्था अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्व सरमा बभूभोः आदघ्नादुपरक्षादारुत्वेनादि प्रश्नात्वारुत्वेन दृश्ये ब्राह्मणाः संयन्ते सखायः अत्राह त्वम् विचारुर्वेद्याभिरोह ब्रह्म नो विचारन्तु त्वे इमेनार्वाङ्गपरश्चरम् दिनब्राह्मणासो न सुतेकाराधः स चेदेवाचमभिपद्यपापजाः श्रीस्तन्द्रम् रन्वते अप्रव्यज्ञयः सर्वे नन्दन्दि यशसागातेन सभा राजेन सङ्ख्यासखायिषस्पृथिदृढनिर्हे कामनम् हितो भव दिवादीनायमास्ते पुष्वाङ्गायत्रम्बो गायनि शङ्क्वादीषु ब्रह्माद्या यज्ञमात्रा भद्रान्नो अपि वादयमनाः ओ हरे को देवानुभयञदानाथमो जामविमलयाः उत्थेणो दस्यमाने यः पश्चादुत्तरे युगे ब्रह्म नस्पतिदेतासम् कर्माराजि वा धमत् देवानाम् पूर्वे युगे स दशदा जायत देवानाम् युगे प्रथमे स दसदा जायत तदा सामण्डाजायन्त तदत्तानपति भूजगवत्तानपदो भुव आशाः अजायन्त अधिदेवर्दक्षोः अजायत दक्षात्पदि तिक्पति अतिनिष्यजानक्षयादुहिता तव देवायन्तभद्रामृताबन्धवः यद्देवा अधस्व निले सु अतिष्ठत अत्राभो कृत्यो रेणुरपायत यद्देवायथा यो यथा भुवनान्यबिम्बद अत्रा समुद्रा गोढासूर्यामचर्तन अष्टौ पुत्रासो अधिदेवा अस्पदि देवाङ्गुपत्रैः सप्तभिः परा माण्डमास्यत् सप्तभिः पुत्रैरीतिरुपत्रैर्पूर्णम् युगम् प्रजायै मृत्यवेत्त्वत्पुरमा काण्डमाभरत् जनिष्ठा उग्रः सह सेतुराजा मन्द्रवोजुष्ठो बहुलाभीमानः अपधनिन्द्रम् मरुदश्चिदत्र माताजद्धीरम् दधनद्धनिष्ठा गुहोविषत्तारशनीचितेवैः पुरुषंसेवेन वाष्टिङ्गम् अभिवृतेवरामाः पदेन धान्तात्रापित्वादुदानन्दगर्भाः विश्वादेपादाप्रयाजिगास्यवधन्वादामिन्द्रिगान् सहस्रमासन्दधृश्विनावृत्याः समानातो निरुपायासि यज्ञमाना सत्यासख्याया वक्षि वसाव्यामिन्द्रधारयः सहस्राश्विना सूरजदथम् मखानि ्या स्माहन्दिन्द्र उषसो यथा नाह विश्वैरागच्छामये हृद्याजघण्ठ त्वम् च गन्धनमूतिम् रहस्यम् दासम् कण्वाकरिषाजे मायम् त्वम् च गमनावेस्यो नाथो देहे पत्रामेतानि दे पत्षेमिनामेशाधिषेकभस्थौ अनत्वा देवाश्रवसामदन्त्युपरिबुध्नान् वलिनश्च कर्था चक्रम् यदस्या निषत्तमुदो तदस्मै मद्विच्छद्यात् पृथिव्यामदीषधम् यदो धयोगोऽश्वदधावोषधीषु अश्वादियायेति यद्वदन्त्योजसो जातमुद मन्य मन्यो दीयाय हन्येषु तस्थो यतः प्रजज्ञ इन्द्रो अस्य वेद प्रियमे वयः सुपन्ना उपादे धारिणयोमानाः अपध्वान्तमोन्धिकक्षर्म बुद्ध्या अस्मान्निजयेव बद्धान् वसूनामादकृषैयक्षन्ध्या वा यज्ञैर्वारोदस्योः अर्वन्दो वाजेन यिमन्तः सादो वनम् वाजे शुशृणुम् तुस्तु शुश्रुतो अवाजेनामसूरो नक्षसद्याम् श्रावस्य तामनासानिम् स कक्षाम् चक्षानायत्रा सुय देवा जौर्नवारेभिः कृणवन्तश्वैः मृता नागी सर्वदाय कृपणम् दलत्नम् जयज्ञम् च साधम् तस्ते नो धान्तु वसव्यामलानि आदत्त इन्द्राजापनम् ताभिय पूर्वम् गोमन्तम् सकलित्वा अय्ये गुरुपुत्राम् वृक्षणम् मघवानम् सुवृत्तिम् भक्ता यो वज्रम् नर्यम् पुरुक्षो यद्वान पुरतमम् पुराकालावृत्रयेन्द्रो नामान्यप्राः अचेजक्रासहस्त्वमुत्तमङ्काररोति सदाने विवस्वतः तत्रेधासृत्वारीणामति सिन्धुरोजसा प्रतेरतद्वरो नो जाता वेपथः सिन्धो यद्वाजाम् यासि सा नू नायतेषामग्रम् जगता विरज्जसि विश्वम्यपर्यन्दम् सुष्ठदीयन्ति भानुना अभ्राति वक्त्रश्च नयन्ति रक्तयस्य धर्यतेति वृणभोनरोपते अभित्वा सिन्धोसिमन्नमातरो अर्णन् सेवधेन वा युध्वानयसि यदा सामग्रम् प्रभता विनक्षसि इमम् मे गङ्गे यमुने सरस्वतिषु स चतापरुष्ण्या असिज्ञामार्जीगीयेषुषोमायात्रा सङ्गते तत्राप्लुतासो दिवमुत्पादन्ति ेवैः तन्वा अमृतेजन्तीरास्तेमृतत्वम् भजन्ते ऋष्टा माया जा प्रथमम् जात वेशजो सुसत्त्वा रसयाः स्वेत्यांसिन्धो भागो मतीम् क्रमम् मे हत्वा शरथम् जाधिरीयसे ीरसरीमहित्वा परित्रजांसि फलते न यांसि अतध्यासिन्धो नपसामपस्तमाश्वानचित्रापूषी वदर्श्वासिन्धुः सुगथा सुवासा हिरण्यजी सुकृता वादिनीवती पूर्णावती युवतिः शीलमावत्युदा धीवस्ते दुभगा मधुमृधम् सुखम् नृहम् युयुजे सिन्धुरश्विनम् ते न वाजम्नाजौ महान्ते तब्धस्य स्वजा ततोऽपि रप्सिनाः आमारञ्जसपूर्जाम् उभेयचानो अहानीत चाभुवासदो परिवश्यात बुद्धिदा तदश्रेष्ठम् सवनम् सुनोतनात्यो न हस्त यतो अग्नि सोदरिदध्याभिभूदिपौंश्यम् महो राजे चित्तरुते तदिध्यस्य सवनम् विवे नो यथा पुन वे गातुमश्रेते भो अन्नोः अपागतरक्षतो भङ्गुरावदस्कभायदीतिम् से ददातिम् आनो रयम् दर्ववीरम् दुनूतनदेवाभ्यम् भरदश्मत्रयः इव स्थिता सोमा रवतरेभ्यो विभ्नाचिदासावस्थिता सोमा रवस्तरेभ्योग्नेश्चिदद्यभ्यः धुरञ्जो नो यतस्तो त्वन्दसोऽग्रावानो वाचादिवितादिवित् माता न गो यत्र जगते काम्यं मध्वा घोषयन्तोऽभितोस्तुराः शृण्वन्ति सोमं रशिरासो अत्र ज्योतिरः सरसम् उपसेतनायकम् नरो हव्यानमध्वजयन्त आसभीः एते नरस्वपरसो अभूतनयेन् यसु न च सोमध्वः दिव्या यथासु वसुवः पार्थीवायसुवसे न वाचा पृषापसो हविष्मन्तो न यज्ञा वीरानुषाः सुमारो तन्न ब्रह्मा न मर्गसे गणमस्तोषेन्न शोभसे श्रिये मर्यासो अञ्जेन्द्रन्वतसुमारोध्याये दानये दिलादित्यावः पृथिव्यानवर्गनात्मनादिविद्रे अभ्रान्नसूर्याः आर्यो नीला परस्य वोदो नवर्याः अभिद्या वः र्वागयम् सुमप्रजस्वन्दो नूयम् धूर्ष प्रयुजो न रश्मिष्वन्दोनभाता ज्युष्टिषु श्येनासो नो रिसादा सप्रभा सो न प्रसीदा सपरिपृषाः तः परागाद्योयम् महः संवरानश्च वस्वाः यदानाथो राज्यस्यािद्वे रः सनुूयोजिज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषोददासते दे। सुवीरम् स देवानामपि गोपीथे अस्तु ते हि यज्ञिया सभूमा भूमा आदित्येन नाम्ना सम्भराविष्टाः तेनो मन्धुरधोर्माम् महत्सयामन्नध्वरे च गानाः विप्रा सो नमन्ना विश्वाद्यो देवाभ्यो न यज्ञे नो न चास्तु सन्दृशाः क्षिदीनाम्न्या रेपसाः अग्निर्नये भ्राजासा रुक्मवक्षसो माता सोनः स्वयुजः सत्यभूतयः ज्येष्ठास्तु नीतयश्च शर्मा नो न सोमा ऋतयते वाता सो न येऽधुना योजिघनवो अग्नीनाम् न जिह्वावि न्दो नयोधास्विमे वन्तः पितॄणान्न संसा सुरातया यथा नान्न ये ये देवास्वनाभयो जिगीवांसोनसूरा अभिद्यावः अरे च वो न मर्याकृतप्ररोभिः अश्वासो नये ज्येष्ठा स आसवो बो दिधिष मोनरक्षः सु आपोन निर्णैरुदभिर्जिगत् नो विश्वरूपा अङ्गीरसो नो न सोनयः सिन्धो मातर आदर्जिरासो महाग्रामो न यामन् उषधान्नकेतवोध्वरश्रियस्वभञ्जवो नाञ्जभि्याश्विदन्न सिन्धवोनययोग्राजधृष्टयः परावतो न यो जानानि ममिले बारान्नो देवाः कृणुता सुरत्नानस्मान् श्रोतेऽन्वारुतो वा विधानाः अधिस्तोत्मस्य सख्यस्य गातसनाद्धिवो रत्नशेया अपस्य मत्यमगतो माहि त्वममत्यस्य मत्याभिक्षु नाघनो विभृते सम्भरे ते असिम्बति वत्सदे भूर्यत्तः गुहासितमृधकक्षी असिम्वन्त्यजिह्नानि अत्रान्यस्मेपद्भिः सम्भरञ्जुतानस्तानमसाधि भिक्षु मादः प्रातनम् गृह्यामिच्छन् गो मारो न विरुधः सर्पदुर्वीः सन्नपक्वमविदच्छुदन्तम् ऋप उपस्थे हन्तमृतम् रोदसी प्रब्रवीमिराजमानो मातरागर्भो अस्ति नाहम् देवस्य मर्गश्चिकेताग्निरङ्गविचेताः स्वप्रचेताः यो अस्मान्नम् दृष्ट्वा आरधाच्याद्यैर्गृतैर्दिभो दिपुष्यति तस्मै सहस्रमक्षभिर्विचक्षेग्ने विश्वलः प्रत्यङ्गम् किम् देवे रत्यजयेनश्च गर्थाग्नेच्छामि कृत्वा विद्वान् अग्रेरङ्गनिरत्तम् विपर्वसश्चगामी वासिः विषोजो अश्वान्यदेव नेजारिजीरथनाभिर्ग्निभीरान् रक्षते मित्रो वसुभिस्तुजादस्समान्धेर्वाभिर्वा वृधानः अग्निस्वपिम् वाजम्भरम् ददा जग्भिर्वीरम् स्वजम् कर्मनिष्ठाम् अग्निरोदसीविचारत्समञ्जन्नग्निर्नारीम् वीरकुक्षिम् पुरन्ध्यम् अग्निरग्नदत्समिदस्तु भद्राग्निर्महीरोदसी आविवेश अग्निरेवम् अग्निर्वीथे पुरूणि अग्निर्हत्यम् जरदः कर्ण माभाग्निरथ्यो निरागधज्जलोधम् अग्निरत्यम् धर्मपोरक्ष्यन्दरग्निर्नमेधम् प्रजया स्रजत्सम् अग्निर्धात्रीनम् सहस्राः शृणोति अग्निर्दिविहव्यमादतार्धामानिभेदा पुरुत्रा विः अग्निम्वयो अन्तरिक्षेपदन्तोऽग्निः सहस्रापरीयादिगोणाम् अग्निम्विषयीलते मानोषीर्जाता अग्निर्गान्धर्वीम् पथ्यामृतस्याग्नेर्घव्योर्हृता विषत्ता अग्नये ब्रह्म निदक्षरग्निम् महामा वोचा मासुवृत्तिम् अर्गे प्रामायरितानम् यविष्टाजस्व यमा विश्वा भुवानाः स आधिष्ठाद्रवीदमिच्छमानप्रथमच्छीदासीदधिष्ठानमारम्भानम् कवित्कथासीत् यतो भूमिम् जनयन् विश्वगम् मा विद्यामौर्णोन्मयिना विश्वचक्षा विश्वदश्चक्षुरुतविश्वजो मुखो विश्वजो बाहुरुतविश्वदस्पात् सम्बाहुभ्याम् तमधिसम्पदत्रैर्जा वा भूमि जनयन् देवयेकाम् सेद्वनङ्गवसवृक्षा स यतो वा पृथिवीनिष्ठदक्षुः अने विनो मनसा पृच्छते तु दद्य दद्यधिपानानि धारयन् या ते धावानि परमानि यापमा यामध्यमाविश्वकर्म नु देवा शिक्षासखेभ्यो रविश्व धावः स्वयम् यजस्व धन्मृधानः विश्वकर्मन् रविडा न्ये अभियोजनादयिहास्माकम् मघवा सूरिरस्तु वाचस्पतिम् विश्वकर्माणमूतये सनो अद्यारूपवेम स नो विश्वानिहवानानियोषद्विश्वसम् भूरपादे साधुकर्म चक्षुष चक्षु धीरो घृतमेने अजनन्नम् न मामे यथे नन्दादृगन्धपूर्वदिद्यावापृथिवी अप्रचेताम् ईश्वकिमनाद्विगा या धाता बीधातापरमोदसन्दृग एष्टानितमिषामदन्धिगत्रा दप्तऋषीन्तरये कामाहुः यो नः पिता च निता यो विधाता धामा निवेदभुवनानि विश्वा भवानायन्धत्रीणं समस्मारिणाय पूर्वय जनिता नो नूना असोक्ते सोऽत्तेजे भूतानि समकण्मानि परो दिवा परजेता पृथिव्या परो देवेऽभिरसूरैर्षदस्ति भम् प्रथमम् दध्राहो यत्र देवाः समगच्छन्त देवा विश्वे अजरश्चनाभावध्येकमर्पीतम् यस्मिन् विश्वानि भुवानानि तस्तुः न तम् वीधाधैमानिष्माकमन्तारम् बभूव े न प्रारे दान्त्यास्तेष्यमार्यन्वया सहस्कृते न सहसा सहस्रन्यविन्द्रोः मन्यदेव स देवो मन्यरुतावरुणो जातवेधाः मन्यम् विषायीले मानोषी पाहिनो मन्यो तपसा सजोढाः अभी मन्यो तपसस्तवीजान्तपसा शत्रून् अमित्रहावृत्रहा दस्युहा च विश्वामसोऽभरात्पन्नाः त्वं हि मन्यो विभूत्योजास्वयम्भूद् धामोः अभिमादिषाः निःसर्गनिःसभो निःसहाभासुः सन्नपरेक्रत्वा अक्रम्हि अजन्ते अश्वपमे शर्वाङ्ग्रजिचीनः स हुरे विश्वधारः ज्रिन्नभिमावदस्योमृतवोऽध्यापे अभिप्रेहि लक्षिरोभवामेधाः कृघना बभूवि जुहोमी ते धरुणम् मध्वो अग्रमुभावूपाम् सुप्रथमापि भावयामन्यो सरथ मा रुजन्तो हर्षमानासो धृषिता मारुपः ग्मे वायुधा संविदायम् तुलरो अग्निरूपाः अग्निरेवमन्योऽयःस हस्तरेनानीर्णस्वधि हस्त्वशत्रोन्विभजस्ववेदवो जोमिमा नो विमृधो नुदस्व सहस्रमन्यो अभिमादिमस्मे रुजन् मृणन्त्र मृणन्त्रे विशत्रू ने भूग्रन्थे पादो नन्वादो रुद्रे श्रीवसम् नयस एकज त्वम् एको बहूनामसिमन्यपीडितो विषम् विषम् युधये श्रीसाधिरुत्वजाः युजाभयम् जुमन्तम् घोषम् विषया च गृह्महे विशेषकृजिवानवब्रभो नाम स्माकम् मन्याधिपाभामुत्संयत आबभूत आभूच्च वज्रसायखिभर्ष विभूत उत्तरम् एद्येधिमहनस्य पुरुहूत संसृजि संसृष्टम् धनमुभयम् समाकृतमस्मभ्यम् दत्ताम् वरुनश्च मन्युः ददा नागृशेषु सत्र पत्परादिदासौ अपनिराजन्ताम् सेनोत्राभिरा भूमिः सूर्येनोत्राभिराद्योः श्रेष्ठम् सोमो अधिसृतः सोमेनादित्या बलिनः सोमेन पृथिवीमही अतो नक्षत्राणामेधामुपस्थे सोमाधीतः सोम् मन्यदेवञ्जत्वम् बृम् ज्योषधिम् सोमन्यम् ब्रह्माणा विदम् न तस्यास्मादिकश्चन आच्छद्विरानैर्विदो वार्घदैः सोमलक्षिणः गृहाृण्वन् तिष्ठदिनरे अश्वादिवार्थीवः यसे पुनः सोमः रक्षिता समा नाम्मा साकृतिः नाराशंसीन्यो जनि सूजाना भद्रविद्वासोदाैति परिष्कृतम् चित्तीर्हनम् चक्षूराभ्यञ्जनम् जोर्भो विक्रोश आसीत् सूर्यापतिम् सोमा आसन् प्रतिभय कुलीरम् छन्दवोपसः सूर्याया अश्विनः वराग्निरासीत् पुरोगवः सोम वधूरिह मनो अस्यान आसीद् जौरासीदुदच्छतिः शुक्रवरड्वास्ताम् विदयात् सूर्यागृहम् ऋभ्या मधिः दौर्गावौ चेतामनावीतः श्रोत्रे चक्रे आस्ताम् देविपन्ताक्रे गाच्याभ्या नो अक्षाहतः अनोमनस्पयम् सूर्यारोहत्प्रजतीकृतिम् सूर्याया महतु प्रागात्सविधायमवासृशते अघादो हन्यकावोर्जन्पर्यते यदस्विपृच्छमानावजातम् त्रिचक्रेण महतम् सूर्यायाः देवा श्वे देवानुतद्वा भजानन् पुत्रः पितराः व्रणीतभूषा यतया तंशुभस्पतीतनेशम् सूर्यामुपैकम् चक्रम् वामासीत्त्वेष्ठायस्ततुः द्वेते चक्रेषु ये ब्रह्माणा कृतवेदुः अथैकम् चक्रम् यद्घातयिद्विदुः यी देवेभ्यो मित्राय वरुणाय च ये भूतस्य प्रचरे दश इदम् देव्यो करम् च रतो मायितौ शिशो क्रीडन्तौ परि जातो अध्वरम् विश्वान्यो भुवानाभितष्टायते पुनः नवो नवो भवति जायमानोन्नाम् चेतुर्षदा मे चक्रम् भागम् देवेभ्य विदधात्याजम् प्रचन्द्रमास्तिरते दीर्घमायोः सुखिम् सुखम् सल्फलिम् विश्वरूपम् हिरण्यवर्णम् सुकृतम् सुचक्रम् आरोहसूर्ये अमृतस्य लोकम् स्योनम् पत्येवदम् कृष्णुष्व ेषा विश्वासम् नमासा गीर्भिरे अन्यामि च विदृशतम् या भागो जनिषातस्य विद्धि उदेर्श्वासो विश्वासो नमासे नामहेत्वा अन्यामिच्छात्र पर्व्या हसम् जायाम् मत्यासुजा ऋजवः सन्धृपन्था योजन्ती नो भलेयम् सपर्जमासम्भगो नोरिनीयाम् सुयमामस्तु देवाः नत्वाद्ये नत्वा बद्धाः सिता सुदेवाः जयो लोः सुकृतस्य लोके दृष्टान्तादहमत्याः दधामि प्रेयो मुञ्च विनामुदस्व बद्धा ममुदस्करम् यथेयमिन्द्रमेस्व पुत्रा सुशासि पूषा त्वेतो न यथहस्तगृह्याश्विनात्वा प्रवाहता मृथेन गृहाम् गच्छ गृहपत्नी यथासो भसिनी त्वम् इह प्रियम् प्रजयाः देसमृध्यतामस्मिन् गृहे गार्हपत्यापत्याः तन्वासः लोहितम् भवति कृत्या शक्तिर्यज्यते दे। दे एधन् देहस्याज्ञातयः पदर्बन्धेषु बध्यते परादेहिला मुल्यम् ब्रह्मभ्योऽपि भजापसु प्रत्यैषा पद्वती भूत्या जायाभि स देपतिम् अश्लीरातनोद्भावया भूया त्वदिर्यद्वद्भो गो वासशाश्व स्वमङ्गमभिरित्सते हे पद्मश्चन्द्रम् वा हलम् चक्ष्मायन्ति जनादनो पुनस्ताञ्जिज्ञया देवानयम् द्विजदागताः मावीदम्परि बन्धिनोज आसीदम् सुगेभिर्दुर्गपदी तावन्तरावादयः माङ्गलीरिजम् वधूरिमाम् समेतपश्चात सौभाग्यवस्थैत्वा द्रष्टमेतत्कटोकमेतत् बाष्टवद्विषभन्नैतदत्त सूर्यायो ब्रह्मा विद्यात्सयिद्वाधूयमर्हति आशसनम् विशस नमथो अधिविकर्तनम् सूर्यायात् पश्च रूपालितानि ब्रह्मानुशंसति गृह्णामि देसौ भगत्वा जहस्तम् वत्या जलदश्चर्य भगो अर्जमासपिता पुरम् धर्मक्यम् त्वा दुर्गार्डपत्याय देवाः ताम्बोषाक्षिपत वामेराय श्रयस्याम्बीरम् मनुष्या आपन्ति ज्ञानगुरु सती विश्रया देयस्या भसन्तः प्रहदामसेपम् त्वभ्यमग्रे पर्यवहन् सूर्याम्बसुना सह उ नः पतिभ्यो जायाम् दा अग्ने प्रजया सह उ नः पत्नी मग्निरदायूराधनवच्च सा दीर्भ्यायूरस्यायः पतिर्जीवादिशरदः शरम् सोमः प्रथमो विदेगम् धर्मो विविधमुत्तरः तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ग्गन्धर्वाज गन्धर्वोदञ्च पुत्रांश्चादादग्भिर्म ह्यमथो जिमाम् इहैव स्तम् मामियौष्टम् विश्वमाय श्रुतम् क्रीडन्तौ पुत्रैर्नत्रेभिर्मोदमानौ स्वे गृहे आनप्रजाम् प्रजापजराज रसायतमानत्वर्यमा अनुर्मङ्गले परिलोकमाभिशसन्नो भवद्विपदेशम् चतुष्पदे अभोजक्षुरपदिग्नेधि शिवापशुभ्यः सुमनाः सुपत्राः वीरसोर्देवकामाश्रो नाशन्नो भवद्विपदेशतुष्पदे इमाम् त्वमिन्द्रमेध्वस्तु पुत्राम् सुभगान् कृणु साशाम् पुत्राणा देहिपतिमेकादशङ्कृधि सम्राज्ञीश्वशूरे भव सम्राज्ञीश्वस्वाम् भवन्तरि सम्राज्ञी भव सम्राज्ञी अधिदेवृषौ समञ्जन्तु विश्वे देवाः समा गोदजानिनौ संमाधरि श्वासम् धाता समुदेष् दधातु अभिशवा भव वरुषाणि सतम् सा ग्रन्तु सुव्राता तेजस्वी च यशस्वी च धर्मपत्नी पतिव्रता जनयद्बहुपुत्राणि मा च दुःखम् लभेत् क्वचित् भर्ता ते सोमपानित्यम् भवेत् धर्मफलाजनः अष्टपुत्राभवत्पञ्च सुभगाः च पतिव्रता भक्तस्यैव पितर्भ्रातुर्हृदयानन्दिनी सदा इन्द्रस्य तु यथेन्द्राणी श्रीधरस्य यथा श्रिया शङ्करस्य यथा गौरी तद्भर्तोरपि भर्तरि मतेर्यथानुसूया स्यात् वसिष्ठस्याप्यरुन्धरति कौशिकस्य यथा सती तथा ध्रुवैदि पो श्यामयि मह्यम् द्वादा बृहस्पतिः मया पत्या प्रजापती सञ्जीवसरदः सतम् भद्रम् नो अपि वादशमनाः ओरिः ेव मां सदा यत्रावृरागाभिरर्यः पुष्पेरुश्वस्मादिन्द्रमुत्तरः पराहेन्द्रधावाधिषाकेरदिव्यतीः नोऽहप्रविन्दस्यन्यत्र सो मा भीतये विश्वस्मादिन्द्रवृत्तरः किमयम् त्वाम् मृषागाभिश्चकार हरितो मृगः यस्मा गिरस्यसि दुन्वा अर्यो वा पुष्टिमध्वसु विश्वस्मादिन्द्रवृत्तरः यमिमम् त्वम् ऋषाकाभिन्दाभिरक्षि स्वान्वस्य जम्भिषदभिकर्णे वराहजुर्विश्वस्मादिन्द्रवृत्तरः प्रियादष्टानि मे कपिर्व्याक्ताव्यादोदुषत् शिरात्मस्य राम् न सुखम् दुष्कृते भुवम् विश्वस्वादिन्द्रवृत्तारः न मत् श्रीसुभगवत्तरा न सुजासुतरा भुवत् न मृज्य वीयसी न सच्छुद्ध वीयसी विश्वस्वादिन्द्र उत्तारः उबे अम्बसुलाभिगेयसे भाङ्ग े अम्बदक्षी मेधिलो देवी मगृष्टिविस्तस्मादिन्द्र उत्तरः किं दो बाहो स्वुरेष्टावृतोजागरे किं जो लभतेऽस्त्वमध्यमेकविण्स्वस्मादिन्द्रवृत्तरः अवीरामि ममामयम् सकारोरभिमन्यते उदाहमस्मि वीरुन्द्रपत्नी मनुत्सर्घाविश्वस्मादिन्द्र उत्तरः सम्भोत्रम् स्म पुराणादि गच्छति मेधातस्य वीरुनीन्द्रपत्नी महीय दे विश्व स्मादिन्द्र उत्तरः ओ